ध्यायामोबला तेजोमयीं नैष्टिकीं स्निग्धां गविलोकिनीं भगवदीं अस्मित नापि श्याङ्गीं मदशिक्षिशानीश्वरीश्वरी ॐ ममृश्वरि ॐ मृदेश्वरी ॐ गणनाम् त्वा गणपतिगुण हवामहेश्वरी करी राम समशस्तमम् चेष्टराजं ब्रह्मणां ब्रह्मस्पत मानशिवितिविनम् ॐ श्रीमा गणपतैः लास्ट् टै वी लर्न दुर्गा सूक्तं स्टार्टेड् लर्निङ्ग् इट् डू दी लर्न लास्ट् टु वा प्रेक्टिस् इण्डिविजली i think you also did practice individually last time too right yes mm -hmm. yeah okay so let's do just two times together and then we start learning the new one okay unless people have any issues or problems we can do it individually okay let's do two times and see what happens okay ready okay one two three oh जातवेदसि सुनवामसूमिदः वेदः सः प्रदति पिविष्ट्वा मा वैव सिन्धुम् दुरिताग्निः तपसा ज्वलन्तीरु कर्मपदान्ति सुरसी नमः ओके देट्स् हो विलण्ड् ओके सोफा करेक्ट् ओके वन् मोट् नैन् वन् टु त्रि ओ सुनमामसो मरा यतो विदहादि वेदः पुनः पश्यदति दुर्गाणि विश्वाना वेवसिन्तुम् दुरितात्यग्निः ग्निवर्णां तपसा ज्वलन्तीं वैरोचनी कर्मफलेषु दुष्टा आम् दुर्गा त्वां देही गणमहम् प्रपप्तिषु तरसि तरसि नमः इण्डिविज्लीट् एबडीस् ओके करेक्ट् ओके स्टार्ट् फ्रम् अग्ने अग्ने त्वं पारया अग्ने त्वं पारया न व्यो अस्मान् स्वस्ति स्वस्तिभिरति स्वस्तिभिरति दुर्गाणि विश्वा दुर्गा विश्वा दुर्दुर्गां विश्वापा आ नवराचर ओके अग्ने त्वं पारय नव्यो अस्मान स्वस्ति भिरति दुर्गाणि विश्वा व्हेन यू जॉइन टुगेदर द अस्मान स्वस्ति भिरति ओके ओके सो इवन दो देयर इज अ संधि देयर यू कैन फॉरगेट अबाउट इट बिकॉज़ अस्मान स्वस्ति रियली रखा ओके अ सकारा विल गेट टेस्ट विद मॉसर्स बट दैट्स ओके So, any problem with any other words? There, there is a THA in the middle, ASMAAN THAST, yeah, yeah, okay. You don't have to say ASMAAN THAST, okay, you cannot say oh, okay. that. Okay, so okay. That's why I said, you know, it says ASMAAN SWASTHI BIRAI is only necessary, okay? Okay, okay, okay. There's no way you can say the asman tust varidhi okay in the yes. proper mode <laughs> yeah <laughs> <Okay>. yeah <laughs> okay so let us try in the in the two parts agne tvam parayana vyo agne tvam parayana vyo या अस्मान् स्वस्ति भरति दुर्गाणि विश्वा अस्मान् स्वस्ति भिरति दुर्गाणि विश्वानि विश्वा अस्मान् स्वस्ति भिरति दुर्गा विश्वा ओके बोधपाठ स ओके ओके नेक्स्ट् एतद् होल्ति अग्ने त्वं पारया नव्यो अस्मान् स्वस्ति भिरति दुर्गाणि विश्वा अग्ने त्वं पारय पारय अस्मान् स्वस्ति भिरति दुर्गाणि विश्वा ओके नेक्स्ट् पोयन् पूश्च पृथ्वीश्च पृथ्वी पूश्च पृथ्व पृथ्वी बहुलान उर्वी बहुला बहुलानी बहुलुलायी भवातोकाय भवा भवातोय भवातोकाय तनयाय संयोः कनयायाय तन्याय तन्याय What the words are, okay? okay? Okay, Is or it is it It in between, okay? it is neither am, okay? it's like य संयोज़् इन् बिट्वीन् ओके इट् इस् नेदर् लैक्ट् मौ say अम् Okay? Okay, shayyo, shayyo. Yeah. okay, But thing is, if you you say say say it, it It can say ho, okay? no problem. But, uh, the the right pronunciation because it is is is because not a janam, you have to say ho. It is am with the mouth बिका इस् नाट् ए वर्गीय व्यञ्जनम् यु ह् टु से संय् अम् वित् मौत् ओपन् तनय् से इो हो okay. Okay. any other questions okay let's try this and see we'll recite it to pushta prithvi puhulana urvi o pushta prithvi puhulana urvi pushta prithvi puhulana urvi भवातोकायतनयायसंयोः भवातो भवा भवायसंयोः भवातोय ओके बुद्धे ओके इस् इस् होल् थिङ्ग् पूश्च पृथिवी बहुलान भवातो भवातोकायतनयायशयोः पूश्चयतनयायशंयोः चुच्चप्रदी बख्ला अब्ली बावार्टो पायतनया यशैक्यो हो Okay, that sentence? Yeah. Okay, hi, hi, one question on the Shai. Is it Shai-yo-ho or Shai-yo-oh? Okay, it is Shai-yo-ho Shai. Okay, you have to say M, but keep your mouth open. Shai-yo-ho, Shai-yo-ho say, oh, Yo-ho So that the okay. the the will come from your nose And And and the the uh, sound is is right? right, right? Yeah, O, O O O-O O, O E, etc. Sanskritam Sanskritam, are all oh, all all dhirga, okay? no or or something like like uh, In other be only It's not, ैक्न्लि इ no, oh. okay. or a okay. there's nothing like uh, short a or o then okay. so this grey san yoho is o is always double matra two matras okay usha i'm sorry hi there something happened to my phone so no problem i missed okay Did you read this last sentence or no I missed uh, after the four step or three. My phone, I took the cell phone now. I, the regular phone is not giving any signal. I don't know what happened. Okay. Yeah, well, we'll see. I don't think there's any uh, big uh, words here. Okay, that's okay. Yeah. We'll see. When I mean, you say if I have a problem, we'll fix it. Don't worry. Okay. Okay. Okay, let's to go to the next sentence then. विश्वानिनो दुर्गः विश्वानि दुर्गः विश्वानि दुर्गः जादवेद सिन्धुना जादवेदृ दुरितादिपर्षि दुरितादितादिपादि विश्वानिनो दुर्गः जादवेदः सिन्धुन्न जादवेदसिन्धुन्न ओके okay? जादवेदः सिन्धुन्न नावा okay? Yeah. Okay, let's try the half parts. दुर्गहा जाधवेदः सिन्धुन् विश्वानिनो दुर्गा नावा दुरितातिपर्षि तिपहे विश्वानि नो दुर्गहा जादवेधः सिन्धुन्न ना वा दुरितातिपर्षि ुर्गाजे विश्वाणि दुर्गे तर्शि ते नाडि ओके लेट् डू वन् मोर् बिफोर् ड्रैङ्ग् इण्डिविजुलि ओके अग्ने अत्रिवन्मनसामनसा कृणानोस्माकम् कृ नोकं नातं तनुना आम् तन् तनुना अग्ने अत्रिवन् मनसानो ओके तनूनाम् इस्नूनाम् ओके लेट्स् ट्रै दु स्पीट् इन् द टु पार्ट्स् इण्ड् ट्रै अग्ने अत्रिवन्मनसागृणानोस्माकम् अग्ने मनसानो बोध्यविता तनूनाम् बोध्यविता तनु अग्ने त्रिवन्मनसागृणानोस्माकम् बोध्यभितातु नूनाम् अग्ने श्री श्रीमन्मनस्काम् बोध्यभित nat nem atrevan anasakra naaray akam saro kevita ditarthanana aa jaa said okay that sentence also yeah yes okay so let's do the parts we learn today and see how that goes okay i'll said once you guys repeat twice अग्ने त्वम् पारयानभ्यो अस्मान् स्वस्तिभिरति दुर्गानि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवातोकायतनयायसंयोः विश्वानि नो दुर्गहा जातवेधः सिन्धुन्न ना वा तुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोध्यवितात नूनाम् अग्ने तु अग्ने संया वसतिरयति नाहि पृष्ठन उपायसंयश विश्वामिनो दुर्गः जातवेदस्विनवाभिपक्षि अवणान सम्बोध्य पिता तनु अग्ने त्वम् पालयानयो अस्मान् स्वस्ति दीरस्य दुर्गा निवेशा पूष पृथ्वी बहुलूर्वीवायतोय ृष्णीनो दुर्गे ननाहा दुरितादिपर्शी अग्ने अग्रवन्मसानो मा को विद्यता तनुना ओके फोर् एवरि बडी ॐ जातवेदसे सुनवामसोमराति यतो निदहाति वेदः स नः पर्षदति दुर्गानि विश्वा ेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा आम् दुर्गाम् देवीगुम् शरणमहम् सुतरसितरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्ति विरतिदुर्गानि विश्वा आ पूश्च पृथ्वी बहुलान् उर्वी भवातोकायतनयायशयोः दुर्गः जातवेदसि न वा दुरितादिपर्शी अग्ने अत्रिवन्मनसा गृणानो स्माकं बोध्यविता तनूना आम् गुड् want to go next you can go okay you want me to start in the beginning or just up up to you. today's whatever if you are comfortable with uh, this thing you can start wherever it's up to you okay i will do today's netvam parayana vyo asman susthipirati dukkani vishwa puscha prithvi bahulana uvi ोकाय सनयाय शम्योः विश्वानिरो दुःखा जातु वेदसिं धुन्न वा दुरितातिपश्री अग्ने अग्ने त्रिवर्णनसाग्रणानोस्माकम् बोध्यवितातनूना आम् गुड् ओके हु इस् नेक्स्ट् ऐ केन् गो अग्नित्वं पारया नव्यो अस्मान् स्व पूच्छ पृथ्वी बहुला न उर्वी भवा तोकायतनयाय संयोः विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न ना वा दुरितातिपर्शी मे अत्रिवन्मनसा गुणानो ओस्माकं बोध्यविता तनूना आम् इस् नेक्स्ट् हरि ओके अग्ने त्वं पारयान यो अस्मान् स्वस्ति भिरति दुर्गाणि विश्वा कोष्ठ पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शयोः विश्वानिनो दुर्गहाजात वेद सिन्धुन्नावा दुरितातिपर्षी सिन्धुन् त्रिवन्मनसा गृणानोस्माकं बोध्यविता तनूनाम् अनै ट्रैस् हरि प्लीस् ॐ जादवेदसे सुनमामसोमरापीयतो निदहादिवेदः सनः पर्षदरि दुर्गाणि विश्वा नावेव सिन्धुं दुरिदात्यग्निः सामग्निवर्णां तपसा ज्वुलन्तीं वैरोचनीं कर्मफलेषु दुर्गां देवी गम् शरणमहम् प्रबद्ये सुतरसितरसे नमः अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिरधि दुर्गाणि विश्वा पृथ्वी बहुलान कायतनयाय भवातोकायतनयायशय्योः विश्वानिनो दुर्गः जादवेदः सिन्दुन्दना वा दुरिदार्शि अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूना ऐ केन् ट्रै हरि ॐ जातवेतसे सुनवामसो ममरातीयतो निदहातिवेदः स नः पर्शदति दुर्गाणि विश्वानावेव सिन्धुं दुरिता अग्निः मग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टा आम् दुर्गां देवी गुं प्रपद्ये सुतरसितरसे नमः अग्नेत्वं पारयानव्यो अस्मान् स्वस्तिभिरत्रति दुर्गाणि विश्वा ऊश्च पृथिवी बहुला न उर्वी भवभवातोकाय तनतनयायशयोः विश्वानि नो दुर्गहा जातवेतस्सिन्धुन्नना वा अग्ने अग्ने अत्रिवत्सा अग्ने अत्रिवन मनसा गुणानो ओस्माकं बोध्य विता अनुनाम् वेरी गुड सॉरी हरि अगेन माय फोन वेंट ऑफ सो आई एम लिसनिंग एनीवेर आई सी यू टू टाइम्स हियर ओके आर यूजिंग टू नंबर्स लेट मी टेल यू व्हाट नो आई नो वन आई ट्राइड फर्स्ट इट वेंट ऑफ सो आई टेक द अदर वन दैट वेंट ऑफ नाउ इट टूक द ओल्ड वन अगेन ओके या ओके yeah vidiraj right. couple of times you can extend some of the things like you say agne I don't know how to that para ya is a dirgha akara right ah oh, okay things like that you can extend there's a durgam devi hams durgam ah is dirgha right so it has to oh, two okay. times time the uh, time for just the akaras oh, okay khrasva dirgha will be the two times the dirgha will be two times there okay oh, okay, okay so get short so I mean, a, you are doing god well. just we come right yeah. durgaam chote okay. durgam durgaam. durgaam is short don't say durgam okay durgaam oh. devi gham sharanam aham prabade sutara sitara se namaha all the hey all, all no okay so oh okay okay don't there's nothing short so that's what i'm saying the only short thing is like hisa uh, akara Hmm. ika ara u kara anru kara every things is difficult okay okay so it will be two times it takes two times the time uh, amount to say those things than their plus of answer got it. so that's why the different place in durita api parshi e is a short e if it is hmm. short long e will be durita api parshi it will be two times oh, okay. the time of the other one okay good so who is next ऐ केन् ट्रै हरि नेत्र पारया नव्यो अस्माम् स्थितिभिरति दुर्गाणि विश्वा पूश्च प्रदी बहुलान उर्वी भवातो कायतनयाय शम्यो विश्वानिनो दुर्गः जातवेद वा दुरितादिपर्षिः अत्ने अत्रिवन्मना गृणानोऽस्मागं बोध्यविता तनूनां अस्ने अत्रि अत्ने अग्ने अत्रिवन्मनसा गृणानोस्मागं बोध्यविदा तनूनां ओके लण्ड् दे अदर् पट् पृतनाजिदगुम्नाटगुतृनाटग सहमानमुग्रमग्निगं सह बहमानमुनिगमान अग्निगुम् हुवेमा हुवेमा हुवे परमात् सदस्तात् परमात् सदस्तात् परमात् सदस्तात् ग्निगम् हुवेम परमात् सरमात् सधस्तात् ओकेयर् परमात् बट् बिका सकार करक fan grassroots minutes we can say paramaat it will become as strong by itself, don't worry about it okay. it will be difficult to say paramaat sadhasthad will be a little more difficult you know paramaat sadhasthad automatically the hatten will come with the mah oh, after, yeah. so don't worry yeah. say so normally as paramaat sadhasthad okay, that will come automatically, don't worry mm. yeah. जितगुं सहमानमुक्रमग्निगुं तहमानमुक्रमग्निगुं ुवेम परमात्सधस्ता आत् कुवेम परमात्सस्ता आत् कुवेम परमात्सदस्ता आत् ओके बुद्धोल् प्रेतनाचीतकम् कृष्णजितगुम् सहमानमुग्नमग्निगुम् परमात्सधस्तात् कृष्णजितगुम् सहमानमुग्रमग्निगुम् र्षदति सनः पर्षदति दुर्गाणि विश्वा ेवो अतिदुरितात्यग्निः अतिदुरिताव्यग्निः संस्पर्शदति दुर्गाणि विश्वा क्षामदेवो अतिदुरितात्यग्निः ओके पर्षदति दुर्गानि विश्वा सनः पर्षदति दुर्गानि विश्वा सनः पर्षदति दुर्गाणि विश्वानि विश्वा क्षामध्येहो अतिदुरिताद्यः क्षामता स नः पर्षदति दुर्गाणि विश्वाक्षामद्धेवो अतिदुरितात्यग्निः परिषदति ञ्जि ओके चलि नेक्स्ट् वन् प्रत्नोषिकमीढ्यो अध्वरेषु स नाच्छोताम् नव्यश्च सीव्यश्च वर्ड्स् ओके प्रत्नोषि कमीड्यो अध्वरेषु सना च होता नव्यश्च सत्सि वर्ड् नव्यश्च सत्सि सत् सि सत्सि सत् प्लस्सि सत्सि सत्सि प्रत्नोषिकमेढ्यो अध्वरेषु सना च कृषि सना च होता नव्य च सी सना च होता न च प्रत्नोषि कमेढ्यो अध्वरेषु सनाच होथा नव्यश्च सतिकमेससि ओके दर्शन ओके स्वाञ्जा आग्ने तनुवम् स्वाञ्जा तनुवं तनुवम् पिप्रयस्वयास्मभ्यम् अस्मभ्यम् अस्मभ्यम् यस्वास्मभ्यम्प्रयम् सौभगमायजस्व सौभगमायजस्व सौभगमाय स्वाञ्जा uh, आग्ने तनुवं पिप्रयस्वास्मभ्यं प्रि च सौभगमायजस्वस् yeah. स्वां चा आग्ने तन्वम् पिप्रयस्वास्मभ्यम् च स्वां च आन्वम् पिव्रयस्वायभ्यम् चभ्यं च स्वां च आ तन्वम् च स्वाञ्चा आग्ने तनुवम् पिप्रयस्वास्मभ्यं च सौभगमायजस्व स्वाञ्चानु यजस्व स्वाञ्चां पिश्रय स्वास्मव्यं च भगमायजस्व ओके लेस्ट् लेटर् पार्ड् वि लर्ण् ओके अल्डु वन् पीट् पृतनाजिदगुं सहमानमुग्रमग्निहुं हुवेम परमातधस्तात् स नः पर्षदधिदुर्गाणि विश्वाक्षामधेवो अधिदुरितात्यग्निः प्रत्नोषिकमेढ्यो अध्वरेषु सनाच्छ होता नव्यच्छ सति स्वाञ्जा च सौभगमा कृतना कृतनाचिम् समानमिद्रह्मेत स नदति दुःखानि विश्वा श्याम देवो अधिताः स्वाञ्चायम् प्रयत्म चोभयजस्व कृतरान उग्रमिम सदतात् स नः पर्षदति कानि शामते श्च सक्ति स्वाञ्च मध्यं च सौभगस्व ेव परमा रस्तात् स नुःखानि विश्वाम देवो अतिदुरितात्यग् प्नोषि गीध्यो अध्वरेषु सनाच्छ होता नव्यश्च सत्सी स्वाञ्च आप्ने तनुवं विप्रय स्वात्मभ्यं च सौभगमायजस्व श्रीगुवा हृतनाजितगुं सहमानमुग्रमग्निगुम् हुवेम परमात्सदस्ता आत् स नःपर्षदति दुर्गानिविश्वा शामदेवो अदिदुरितात्यग्निः परिषु सना च होता नव्यश्च सखी स्वां च आग्ने तनुवं स्वास्मभ्यं च सौभगमायजस्वरि गुड् सहमान हमानमुक्रमग्निगुम् हुवेम परमात्सधस्ता आत् सनःपर्षदतिदुर्गाणि विश्वा क्षाम देवो अतिदुरितात्यग्निः प्रतनोषिकमीठ्यो अध्वरेषु सनाच्च होतात् नव्यश्च सत्से ग्निगं हुबे परमात्सदस्ताद् धस्ता नो परमात्स धस्ताद सनःपर्षदरि दुर्गाणि विश्वा क्षामद्देवो अधि दुरिदात्यग्निः िगमेध्यो अध्वरेषु सना च होता नव्यश्ची स्वां चाग्ने तनुभं पि स्वास्मभ्यं पिप्रय प्र... पि स्वास्मभ्यम् ऐ केन् गो नेक्स्ट् हरि वृतनाजितगं सहमानमुग्रमग्निगम् हुमेव परमा सदस्ताद् सनपर्षदधि दुर्गाणि विश्वा शामद्देवो अतिदुरितात्यग्निः श्रोषि कमीढ्यो अध्वरेषु सनाच्च होताव्यश्च सत्सी स्वाम् चात्मेतनुवम्प्रयस्वास्मभ्यम् भ्या, च सौ जितगं सहमानमुग्रमग्निगं हुवेम परमात्स स्पर्शदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः रत्नोषिकमीद्यो अध्वरेषु सना च होता अभ्यश्च सत्सी स्वाञ्चा आग्ने तनुवम् विप्रयस्वास्मभ्यम् च सौभगमा यजस्व वेरिगुड् ृतनागुं नांस ऋतनाजितगुंसह मानमुग्रमग्निगुं हुवे परमात्स नुर्गाणि विश्वाक्षामते वो अतिदुरितात्यग्निः ज्ञोषि कीथ्यो अध्वरे शुसना च ओता नव्यश्च स्वां स्वां च अग्ने तनुवं विप्रयस्वास्मभ्यं च सौफमायजस्वरिगुड् बैट् okay let us uh, uh, there are only two more sentences let's try to learn it today we won't chant it but at least we can do that okay and uh, next week we'll practice rudram and chamakam next is third monday right yes here oh, yeah. okay go pirjushtam ayujo go pirjushtam ayujo ayujo go pirjushtam ayujo निषिक्तम् निशेषितम् निषिक्तम् तवे इन्द्रवेन्द्रेन्द्रवेन्द्र विष्णोरनुसञ्चरे मा विष्णोरनुसञ्चरे मेमा नुसञ्चरे गोभिर्जुष्टमयुजो निषिक् गोभिर्दोष्टमयुष्टमयुतो निषिन्तम् गोभिर्दुष्टमयुतोनुषितं कवेन्द्रविष्णोरनुसञ्चरे मा कवेन्द्रेन्द्रविष्णोरनुसञ्चरेम नुचरे गोविर्जुष्टमयुजो निषिक्तं तवे न्द्रविष्णोरनुसंचरेम गोविर्जुष्टमयुजो मयिषितं तवेन्द्र विश्वविष्णोचरेम ो निषिकं चलोके रच्चन्दन् नाकस्य पृष्टमभिसंवसानो नाकस्य पृष्टमभिषमभिनो वैष्णवीं लोक इहमादयन्ताम् ो वैष्णवीम लोक इह मादयन्दम् स्माल् सेण्ट्रै दोल् तिङ्ग् ओके नाकस्य पृष्टमभिसंवसानो वैष्णवीम् लोक इहमादयन्ताम् पृष्टमभिसम्वसानमधयताम् लास्ट् बिकास् इस् एन् विल् सी वर्डल् ओम् कात्यायनाय विद्महे कन्यकुमारि धीमहि ॐकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् That that is okay. Okay. before, right? right? So it may not be that difficult, the yeah. the last last one, right? Yes. Yeah. Yeah. Okay. Well, let's try लास्ट् लेट् say it once. You guys repeat twice. गोभिर्जुष्टमयुजो निषिक्तं तवे एन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोकनिपमादयन्ताम् ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गि प्रचोदयात्षि से विष्णो नाकस्य पृष्टं नमसानुवी प्रमादयन्ता धीमहि तन्नो दुर्गि प्रयाः गोपिमयुजी निषिवेन्द्रवे अनुसरेम पृष्टमहि अम्बा नो वैष्णवीशम योदयताम् ओयनाय मारि धीमहि तन्नो दुग् प्रचायात् OM, Om Shanti, Shanti, SHANTI SHANTI SHANTI OM SHANTI SHANTI SHANTI, Shanti. Shanti. Okay, so uh, next week we'll practice Rudram and Chamagam, like Lagunyāsam, uh, um, Rudram and Chamagam, like we do most of the third, third week, third Monday of the thing, okay? Um, if there is any specific uh, paragraph you want to chant or not chant or something that we know, otherwise we can do it on the spot too, right? We can be comfortable with most yeah. of the paragraphs, correct? No. Yeah, you just tell us. Okay. You don't need any advance notice or anything, right? No. Okay. <laughs> <laughs> Let's try. <laughs> so even if you make mistake, you correct us, so it's okay. <laughs> yeah joke okay, na no? we are just learning it right so it doesn't matter it's so that's why <laughs> okay so let's do tri lokah samstah and stop for the day then om lokah samstah सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवतु ओभ्यो न हरिः